मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं तर्टि टु धनकस्य व्रतोपदेशम् श्रीगणेशाय नमः मुद्गल उवाच यदोरप्यभवन्पुत्राश्चत्वारो देवसन्निभाः सहस्रजित्तथा ज्येष्ठस्तस्य पुत्रो बभूवः शत जिन्नामविख्यातस्तस्य पुत्रास्त्रयो भवन् हिहयश्च हयश्चैव वपुर्हय उदाहृतः हिहयस्याभवत्पुत्रो धर्म इत्यभिुतः तस्य नेत्रस्तस्य कुन्तिस्सौहञ्जिष्ट तत्सु दस्मृतः सोऽकेरभवत्पुत्रो महिष्मान्नाम पार्थिवः माहिष्मदीजनगरीवासिदायेन भूभुजा तस्य पुत्रो भद्रसेनो दुर्मदस्तत्सु दस्मृतः धनकश्चापरो धीमान्मुख्यो भूत्तत्र पार्थिवः अनगादभवन्पुत्राश्चत्वारो लोकविश्रुताः कृतवीर्यकृताग्निश्च कृतवर्मा तदस्मृतः कृतौजाश्च तथा दक्षतत्र ज्येष्ठप्रतापवान् बभूवधानशीलश्च कृतवीर्यो महीपतिः तेन वै च दुर्धी कृष्णगापरा प्रजापाल स्वर्गात् सर्व सर्वशुभप्रदा दक्ष उवाच कथं तेन नृपालेन चतुर्धी भूमिमण्डले समानीदमहायोगिन्वद तस्य चरित्रकम् श्रुत्वा कथामृतं स्वामिन्हर्षश्चेतसि वर्धते अदो विस्तरभावेन कथयस्व कथयस्वकथानकं मुद्गल उवाच माहिष्मत्यां महाभुर्यां भीमनामाभवत्पुरा अन्त्यजोद्रव्यलुब्धश्च पापकर्म स सदुमार्गे जनान् वीक्ष्य मारयत्तान् दिने दिने मांसविक्रयकारी च पशून्हत्वा निरन्तरम् एकदा माखमासस्य चतुर्थी कृष्णपक्षगा समागता च तत्रा सौ विचचारवनान्तरे महापर्वतदेशे स जनानां प्रवधाय च दैवयोगेन तस्यापि मिलितं नैव किञ्चन अयं विहीनो लोभसंयुतः मिलितं तत्र नो किञ्चित्तथा भूतश्चचारः ततोस्तमगमत्सूर्यस्तम् दृष्ट्वा स्वगृहे मदिं गमनाय तथा चक्रे मार्गसंस्तो बभूवः मार्गे दुष्टो द्विजास्तत्र दृष्ट्वा द्वादशसङ्ख्यकान् तान् हत्वा स स्वगृहं ययौ चन्द्रोदये तदप्राप्ते प्राप्ते बुभुजे भोजनाकुलः पुत्रं गणेशनामानमाह्वयामास तेन सह पुनश्चकारतद्वत्स कदाचित्पापमुल्बणं कृष्णपक्षे चतुर्भ्यां सममारोदये विधोः गणेशदूतास्तं तत्र समानेदुं समाययुः कैलासे गणपस्थाने निन्युस्तं ते विमानगं स्वर्गमार्गेषु देवैश्च ब्रह्मविष्णवादिभिः स्तुतः विमानघैस्तुयमानप्रविवेश शिवास्पदम् त्र भुवा प्रभोगास्पृथिवीतलेम सुधो जे धन कश्य महाबल कृतवीय ख्यापरायण देव विप्रातिसु बभूव यज्ञक अपुत्र स्म भवद्राजा कृतवी प्रतापवान्त्र तं यदतेऽस्मादिनाधर्मपरायणः नलेभे सन्दधिं राजा तदोऽसौ दुःखसंयुतः प्रधानेषु समाक्षिप्य राज्यं निखतकण्डकं सपत्नीगोवनं राजायय यौ तपसि संस्थितः पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूद नानातपश्चकारासौ सन्ततिं न तथापि च लेभे नृपः प्रजानाथ नेत्रप्राणावशेषितः अस्तित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः स्वर्गस्थं धनकं तत्र वृत्तान्तमवदन्नृपं तव पुत्रो वने संस्तपुत्रार्थं यतते नृप नानायत्नसमायोकृतोऽस्ति त्वचाप्रयुतोऽस्ति वै नलेभे सन्दधिं राजा स्वल्पकाले मरिष्यति पुत्रहीनस्य भो राजन्कागधिप्रभवेद्वद इत्युक्त्वा तं मुनीन्द्रः स ययौ कैलासमादराद धनगो मनसात्यन्तं ब्रह्माणं शरणं यामि सर्वज्ञं तेन चेप्सितं भविष्यदि न सन्देहस्ततः सोऽपि ययौ विधिं प्रणिपत्य प्रदुष्ठावनास्तोत्रायिः प्रजापतिम् उवाच तं महाभागं विनयेन समन्वितः धनक उवाच धर्मशीलश्च मे पुत्रपुत्रहीनो बभूव हि पुत्रार्थं यददे ब्रह्मन्नानव्रतपरायणः राज्यादिकं समुत्सृज्य वने तपदि संस्थितः तपस्तेनावशेषो स वस्ति चर्मवृदो बभौ केनोपायेन पुत्रश्च भविता तं वद स्वमे प्रापयिष्याम्यहं तत्र स्ववंशस्य विवृद्धये ततस्तं प्रत्यवाचेदं वचनं चतुरानः पूर्वजन्मनि सम्भोधं द्विजहत्यायुधं व्रतं पुनः प्रोवच तं देवो विधिः सर्वार्थकोविदः पुत्रप्राप्त्यर्थमेवैकमुपायं सर्वसिद्धिदम् अज्ञानेन व्रतं तेन कृतं सङ्कष्टहारकम् चतुर्थी प्रभवं तेन पापं सर्वं लयं गतं महापानि नश्यन्ति सङ्कष्टीव्रतसाधनाद सङ्कष्टीव्रतसम्बन्धिदिवसे यत्कृतं भवेत् तदेवाक्षयभावेन तिष्ठत्यत्र न संशयः चतुर्ध्यां भूपकृष्णायां पुण्यमेव समाचरेत् तव पुत्रेण राजेन्द्रद्वादशब्राह्मणाहताः चतुर्थ्यां पूर्वजन्मस्तेन पापं तत्स्थितं महद नानातपप्रभावेण व्रततीर्थादिकेन च यज्ञादिभिश्च तत्पापं लयं नैव गमिष्यति पापं वज्रलेपं च तत्स्मृतं तत्र कश्चिदुपायो न तथापि शृणो यनसङ्कष्टिका पुण्या चतुर्थी साधिता नृपा तस्य जन्मादिकं नैव भविष्यति कदा पुनः चतुर्विधं प्रजानीहि सर्वं मायामयं जगत् चैव जीवानां तेन युक्ता भ्रमन्ति ते चतुर्थी गणनाथस्य साधिता यदा चतुर्विधं तस्य कष्टं न भवेद्वै कदाचन ब्रह्मणिग्ब्रह्मभूतो ते स्वानन्दे वर्तदे नरः व्रतस्यैव प्रभावेणेह लोके सुखमाप्नुयाद चतुर्थ्यां पापकारायै तेषां मुक्तिर्न विद्यते पापयुक्ततया राजन् स्वर्गस्थास्ते भवन्ति च पुनर्जन्मधरा भूमौ तत्र पापफलं स्वकम् भुञ्जन्ति च पुनः सर्वे गाणपत्या भवन्ति ते अतो गणेशदूधैः स कैलासे स्थापितोन्त्यजः पापभोगार्थमेवम् च तव पुत्रोऽधुना भवत चतुर्थ्याम् यत्कृतम् पापं चतुर्थी हन्ति तत्सदा तदर्थम् ते सुदोराज्यंश्चतुर्थी मा चरिष्यति तदपभविहीनोऽयं भविता नात्र संशयः पुत्रयुक्तश्च ते पुत्रो भविष्यति महामदे अपराधयुतं कर्म कृतं नाशार्धमादराद तस्य पुण्यं प्रकर्तव्यं दुरिदं तेन नश्यति चतुर्धीमहीमानन्दो भूतं यदपि तद्दिने पापं क्रोधसमयुक्ता महाकृच्छ्रेण हन्ति अतस्तत्पापनाशार्थं सङ्गष्ठीर्द्वादशाचरेद् तदा द्वादशविप्रान्तभवं पापं गमिष्यति ततस्थं करुणायुक्तसविधिव्रतमादराद कथयामास वैब्रह्मययौ राजा प्रणम्यतम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते धनकस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः